संवत्सरः पञ्चयुगम् अहोरात्रश्चतुर्विधः कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययं धर्मचक्रं तथा चापि नित्यमस्ते युधिष्ठिरा अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा कालिका देवतानां च मातरः रुद्राणी श्रीश्च लक्ष्मीश्च भद्राषष्ठी तथा परा पृथ्वी गाङ्गता देवी ह्री स्वाहा कीर्तिरेव सुरा देवी शची चैव तथा पुष्टिररुन्धती संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा एताश्चान्याश्च वैदेव्या उपतस्थ प्रजापतिम् आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि विश्वे देवाश्च साध्याश्च पितरश्च मनोजवाः पितॄणाम् च गणान् विद्धि सप्तैव पुरुषर्षभा मूर्तिमन्तो हि चत्वारस्त्रयश्चाप्यशरीरिणः वैराजाश्च महाभागाग्निष्वात्ताश्च भारता गार्भपत्या नाकचराः पितरो लोकविश्रुताः सोमपायेकशृङ्गाश्च चतुर्वेदाः कलास्तथा एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप एतैराप्यायितैः पूर्वं सोमश्चाप्यायते पुनः त एते सर्वे प्रजापतिमुपस्थिताः उपासते च संहृष्टा ब्रह्माणममितौजसम् राक्षसाश्च पिशाचाश्च दानवागुह्यकास्तथा नागाः सुपर्णाः पशवः पितामहमुपासते स्थावरा जङ्गमाश्चैव महाभूतास्तथा परे पुरन्दरश्च देवेन्द्रो वरुणो धनदोयमः महादेवः महा स हो मात्रा सदा गच्छति सर्वशः महासेनश्च राजेन्द्रः सदोपास्ते पितामहं देवो नारायणस्तस्यां तथा देवर्षयश्च ये ऋषयो बालखिल्याश्च निजा, यच्च किञ्चित् त्रिलोकेऽस्मिन् दृश्यते स्थाणुजङ्गमम् सर्वं तस्यां मया इति विद्धि